धर्मे स्थितो धर्मसुतो महात्मा स्वयञ्चेदं कथयत्विन्द्रकल्पः ईशो वातेह्यनीशोऽथ वैष वाक्यादस्य क्षिप्रमेकम् भजस्व सर्वे हिमे कौरवे सभायाम् दुःखान्तरे वर्तमानास्तवैव न विब्रुवन्त्यासत्वा यथावत् पतिंश्च ते समवेक्ष्याल्पभाग्यान् वैशम्पायन उवाच ततः वाक्यं सर्वे प्रशशंसुस्तथोच्चैः चेलावेधांश्चापि चक्रुर्नदन्तो हाहेत्यासीदपि चैवार्तनादः श्रुत्वा तु वाक्यम् सुमनोहरं तद्धर्षश्चासीत् कौरवाणां सभायाम् सर्वे चासन् पार्थिवाः प्रीतिमन्तः कुरुश्रेष्ठम् धार्मिकं पूजयन्तः युधिष्ठिरञ्च सर्वे समुदेक्षन्त पार्थिवाः किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः भीमसेनोयमौ भृशं कौतूलाता